गणेशपुराणम् उपासनाखण्डम् अध्यायं फट्टि ब्रह्मोवाच आक्रम्यदेवधिष्ण्यानि दैत्योगाद् ब्रह्मणः पदं पराक्रमं दैत्यकृतं श्रुत्वा देवमुखात्परा ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव स्थापयामास ब्रह्मलोकेऽधिनायकं ततश्चण्डं च वैकुण्ठे चकारस्वामिनं स्वयं ततः कैलासमगमस्तं च भयभीता जगिरिजा लिलिङ्गे शङ्करं भृशं तद कैलासमगमद्युद्धाकाङ्क्षी महासुरः तेन तुष्टो महादेवो दैत्यस्य पौरुषेण च बहिर्ययौवरं दातुं निजभक्तं सुखप्रदः ददर्शत्रिपुरं दैत्यं वरं वृण्वित्यधा ब्रवीद सव्रे यदि तुष्टोऽसि देहि कैलासमध्य मे गच्छ मन्तारशिखरं यावन्मम मनोरथः शङ्करोऽपि ददौ तस्मै कैलासं स्वल्पकालिने स्वयं जगामगिरिशो मन्दाराद्रिं गणैर्वृतः कैलासशिखरारूढो जहर्षत्रिपुरासुरः एवं देवान् वशेकृत्वा पुनरायार्द्रसातलं भीमकायोपि बलवान् भूमण्डलगतो बलात् वशे नृपदीन ऋषीन् सर्वान् बबन्ध च अग्निकुण्ठानि सर्वाणि देवतृप्तिकराणि च आश्रमांश्च बभञ्जाशुतीर्थानि च विशेषतः तापः सां स्त्रासयामास कारागारसमाश्रयाद स्वाहा स्वधा वषत्कारान् वेदस्याभ्यसनानि च सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित वज्रदंष्ट्रोधसप्तापि पादालानि वशेन शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः चकार वशवर्दिलह चकारवशवर्दिलः वज्रदंष्ट्रो रत्नजातं बुभुजे प्रेषयच्छतं नागाङ्गनाभिश्च कुतूहलेन रेमे सदा सौ समदोदिहर्षाद भोगान् विमुञ्चन् विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः पादालवश्यदां शं सन् लेपेमानं ततोऽधिकं वस्त्राणि जहार्हाणि ग्रामान् दासाननेकशः एवं त्रिलोकान्वशगान् कृत्वा दैत्यो ननन्दः देवाः सर्वे गुहावाश्चिन्तयामासुरन्वहं कथमस्य वध कस्मिन् काले वापि भविष्यति कस्माद्वेदि न जानीमो लब्धो नेन वरं कुतः एवं व्याकुलचित्तेषु सुरेषु मुनिसत्तम आययौ नारदस्तत्र त्र त्रैलोक्य चर इच्छया ददर्श दीनान् देवांस्तानुत्ततारनभपथात् दृष्ट्वा सर्वे नारदं तमुत्तस्तु सहसादराद आलिलिङ्गुश्च नेमुश्च पुपूज्युश्च यथाक्रमम् विश्रान्तं परिपप्रच्युस्त्रिपुरस्य वराधिकं देवावौचुः त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचरं स्ताधानि नो गृहीतानि केशास्तेनापि निर्जिता शरणं कं व्रजामोद्य कथं तस्य वधो भवेत् वराश्च दत्तानो वदास्य त्रिपुरस्य भोः नारद उवाच कथयामि समासेन दैत्यस्य चेष्ठितं महद दिव्यवर्षसहस्रं स तताप परमं तपः प्रसादयामास विभुं गणेशं देवनायकम् तेनास्मै दुर्धरा दत्ता वराः सर्वभयङ्कराः देवर्षि पितृभूदेभ्यो यक्ष रक्षपिशाचदः ननागेभ्यो भयं दत्तं विनयिकं शङ्करं विभुं प्रसादयन्तु देवेशं द्विरदाननमादराध आराधयन्तुः सर्वेपि विघ्नेशं सर्वसिद्धिदं देवा ऊचुः कथमाराधनं तस्य देवदेवस्य धीमतः कर्तव्यं कृपया तद्वदस्वनः नारद उवाच अकमेकाक्षरं मन्त्रं कथयाम्यखिलान्प्रति तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः यावत्प्रत्यक्षता मेदि देवोऽसौ गणनायकः स एव तद्वधोपायं वदिष्यत्यखिलान् प्रदि नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तु मे वचः ब्रह्मोवाच इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तं जगाम तत्क्षणादेव वीणागानरतो मुनिः तदेशे सुरवरा गनेशं ध्यान गणेश ध्यानत्पराेकस्थि केजिकेजिपद्मा युधा के जिन्मीलोचना निराहा जिदश्वासा जे पुर्मंत्र मुनी हृदय ततो बहुगते काले कर्णाब्धिर्गजाननः अनुष्ठानं निरीक्ष्ययिष्यां देवानां चिरकालजम् आविर्बभूव गणपस्तेषामग्रे वरप्रदः उल्लसत्स्वर्णमुकुटश्चारुकुण्डलमण्डितः दन्तन्यस्तकरो राजकडिसूत्रवराङ्गद पाशं शृणिं च परशुं कमलं च भुजैर्दधत रक्तचन्दनकस्तूरी सिन्धूरशशिभूषणः विद्युतेजो लशत्कान्धिकोडिसूर्य समप्रभः दृष्ट्वैवं सह सा तेजसा दर्शित सर्वे भयमापुश्च केचन प्रणेमुत्सहसा केचिद्देवास्तं द्विरदाननं पूजयामासुरपरे हर्षगद्गदभाषिणः स्वसङ्कष्टविनाशाय तुष्टुभुः कोपितं विभुं प्रसाद सुमुखं देवम् सुसुखं सङ्कडापखं देवा ऊचुः नमो नमस्ते परमार्थरूप नमो नमस्ते किलकारणाय नमो नमस्तेखिलकारणाय सर्वेन्द्रियाणामधिवासिनेऽपि नमो नमो भूतमयाय तेस्तु नमो नमो भूतकृते सुरेश नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय नमो नमो विश्वभृदेखिलेश नमो नमः कारणकारणाय नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय नमो नमो भक्तमनोरथग्ने नमो नमो भक्त मनोरथज्ञ नमो नमो भक्त मनोरथेश नमो नमो विश्वविधानदक्ष नमो नमो दैत्यविनाशहेदो नमो नमः सङ्कटनाशकाय नमो नमः कारुणिगोतमाय नमो नमो ज्ञानमयाय ते स्तु नमो नमो ज्ञानविनाशनाय नमो नमो भक्त्र विभूतिदाय नमो नमो भक्तविभूतिहन्द्रे नमो नमो भक्तविमोचनाय नमो नमो भक्तविबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते नमो नमस्तत्त्वविबोधकाय नमो नमस्तत्त्वविदुत्तमाय नमो नमस्ते किल कर्मसाक्षिणे नमो नमस्ते गुणनायकाय ब्रह्मोवाच एवं द्विरदानन ईश्वरः उवाच परमप्रीतो हर्षयत्सुरसप्तमान् गणेश उवाच स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ददामि सकलाभीष्टं तत् वृणुध्वं सुरेश्वराः देवा ऊचुः यदितुष्टोसि तुष्टोऽसि देवे शत्रिपुरं जहिदानवं सर्वेषामधिकारान्नो गृहीत्वा यस्तु तिष्ठति त्वयैवास्याभयं दत्तं सर्वामरसमूहतः अत स्मः सङ्कटम् प्राप्ता सङ्कडान्मोचयाशुनः त्वामेव शरणम् प्राप्ता एष एव वरोहिनः गणेश उवाच वारयिष्ये भयं सर्वं तस्माद्घोरतराद्धिवः भवत्कृतमिदं स्तोत्रमधिप्रीतिकरं तमम् सङ्कष्टनाशनमिति विख्यातं च भविष्यति पठतां शृण्वतां चैव सर्वकामप्रदं नृणां त्रिसन्ध्यं यः पठेदे तत्सङ्कष्टं नाप्नुयात् क्वचित् ब्रह्मोवाच यदि दत्त्वा वरं तेषां सुराणां जगदीश्वरः तत्रै श्री पश्यता उपासना त्रैवान्दे स्तोत्र यी गणेशपुराणे उपासनाखंडे शोध्यायः चुरीशोध्याय